अथाष्टादशः सर्गः इत्युक्तः प्रश्रितम् वाक्यम् धर्मार्थसहितम् हितम् परुषम् बालिना रामो निहतेन विचेतसा तम् निष्प्रभमिवादित्यम् उक्ततोऽयमिवाम्बुदम् उक्तवाक्यम् हरिश्रेष्ठमुपशान्तमिवानलम् धर्मार्थगुणसम्पन्नम् हरीश्वरमनुत्तमम् अधिक्षिप्तस्तदा रामः पश्चाद् बालिनमब्रवीत् धर्ममर्थम् च कामम् च समयम् चापि लौकिकम् अविज्ञाय कथम् बाल्यान्मामिहाद्य विगर्हसे अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान् सौम्यवानर चापल्यात् त्वम् माम् वक्तुमिहेच्छसि इक्ष्वा मृगपक्षिमनुष्याणाम् निग्रहानुग्रहेष्वपि ताम् पालयति धर्मात्मा भरतः सत्यवा ऋजुः धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः नयश्च विनयश्चोभो यस्मिन् सत्यम् च सुस्थितम् विक्रमश्च यथा दृष्टः स राजादेशकालवित् धर्मकृतादेशा वयमन्ये च पार्थिवाः चरामो वसुधाम् कृत्स्नाम् धर्मसन्तानमिच्छवः तस्मिन्नृपतिशाद्दूले भरते धर्मवत्सले पालयत्यखिलाम् पृथ्वीम् कश्चरे धर्मविप्रियम् ते वयम् मार्गविभ्रष्टम् स्वधर्मे परमे स्थिताः भरताज्ञाम् पुरस्कृत्य निगृह्णीमो यथाविधि त्वम् तु सङ्क्लिष्टधर्मश्च कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ज्येष्ठो भ्रातापि तावापि यश्च विद्याम् प्रयच्छति त्रयस्ते पितरो ज्ञेया धर्मे च पथिवर्तिनः यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चैवात्र कारणम् सूक्ष्मः परमदुर्ज्ञेयः सताम् धर्मः प्लवङ्गमा हृदयस्थः सर्वभूतानामात्मा वेदशुभाशुभे चपलश्चपलैः सार्धम् वानरैरकृतात्मभिः जात्यन्ध इव वा जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु वचनस्य ब्रवीमिते न हि माम् केवलम् रोषात् पश्य यदर्थम् त्वम् मया हतः भ्रातुर्वर्तसि भार्यायाम् त्यक्त्वा ध धर्मम् सनातनम् अस्य त्वम् धरमाणस्य सुग्रीवस्य महात्मनः रुमायाम् वर्तसे कामात् स्नुषायाम् पापकर्मकृत् तद्व्यतीतस्य ते धर्मात् कामवृत्तस्य वानरा भ्रातृभार्याभिमर्शेऽस्मिन् दण्डोऽयम् प्रतिपादितः न हि दण्डादन्यत्र पश्यामि निग्रहम् हरियूथप न च ते मर्षये पापं क्षत्रियोहं कुलोद्गतः औरसीम् भगिनीम् वापि भार्याम् वाप्यनुजस्य यः प्रचरेतनरः कामान् तस्य दण्डो वधः भरतस्तु महीपालो वयम् त्वादेशवर्तिनः त्वम् च धर्मादतिक्रान्तः कथम् गुरधर्म व्यतिो धर्मेण पालयन भरत कामयुक्ता निग्रहे पर्यवस्थि वयं तो भरतादेश मदा निग्रहत व्यवस्थिता सुग्रीवेण मे सख्यम लक्ष्मणेन यारज्य निचंश्रेयसक प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ प्रतिज्ञा च कथम् शक्या मद्विधेनानवेक्षितुम् तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंश्रितैः शासनम् तव यद्युक्तम् तद्भवाननुमन्यत सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः वयस्योपकर्तव्यम् धर्ममेवानुपश्यत शक्यम् त्वयापि तत्कार्यम् धर्ममेवानुवर्तत श्रूयते मनुनागीतौ श्लोकौ चारित्रवत्सलौ गृहीतौ धर्मकुशलैस्तथा तच्चरितम् मया राजभिर्धृतदण्डाश्च कृत्वा पापानि मानवाः निर्मलाः स्वर्गमायान्ति सन्तः यथा शासनाद्वापि मोक्षाद्वास्तेनः पापात् राजा त्वशासन्पापस्य तदवाप्नोति किल्बिषम् आर्येण मम मान् धात्रा व्यसनम् घोरमीप्सितम् श्रमणेन कृते पापे यथा पापम् कृतम् त्वया अन्यैरपि कृतम् पापम् प्रमत्तैर्वसुधाधिपैः प्रायश्चित्तम् च कुर्वन्ति तेन तच्छाम्यते रजः तदलम् परितापेन धर्मतः परिकल्पितः वधो वा नरशार्दूलनवयम् स्ववशे स्थिता शृणुचाप्यपरम् भूयः कारणम् हरिपुङ्गव तच्छ्रुत्वा हिमहद्वीर न मन्यम् कर्तुमर्हसि न तत्र मनस्तापो न मन्युर्हरिपुङ्गवा वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नरा प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान् प्रधावितान्वा वित्रस्तान्विःस्रब्धानतिविष्ठितान् प्रमत्तानप्रमत्तान्वा नरा माम् साशिनो भृशम् विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते यान्ति राजर्षयश्चात्र मृगयाम् धर्मको विदाः तस्मात् त्वम् अयुध्यन् प्रति युध्यन् वा यस्माच्छाखा मृगो ह्यसि दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च राजानो वानरश्रेष्ठप्रदातारो न संशयः तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियम् वदेत् देवामानुषरूपेण चरन्त्येते महीतले त्वम् तु धर्ममविज्ञाय केवलम् रोषमास्थितः विदूषयसि माम् धर्मे स्थितम् एवमुक्तस्तु रामेण बाली प्रव्यथितो भृशम् न दोषम् राघवेदध्यौ धर्मेऽधिगतनिश्चयः प्रत्युवाच ततो रामम् प्राञ्जलिर्वानरेश्वरः यत्त्वमार्थनरश्रेष्ठ तत्तथैव न संशयः प्रतिवक्तुम् प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् यदयुक्तम् मया पूर्वम् प्रमादाद् वाक्यमप्रियम् तत्रापि खलु माम् दोषम् कर्तुम् नार्हसि राघव त्वम् हि दृष्टार्थतत्त्वज्ञः च हितेरतः कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया मामाप्यवगतम् वाचा धर्मज्ञपरिपालय बापसमुद्धकस्थ वाली सान उवाचराम् स्रेक्ष्य पंकलग्न इव द्विप न चात्मा शोचे नारा बाधवान्ुण ज्येष मंगद कनकांगद् सामर्मादर्शना बाल्यात्भतिला तटाक पीतांबुशोष ग बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः तारेयो राम भवता रक्षणीयो महाबलः सुग्रीवे चाङ्गदे चैव विधत्स्वमतिमुत्तमा त्वम् हि गोप्ता च शास्ता च कार्या कार्यविधौ याते नरपते वृत्तिर्भरते लक्ष्मणे च या सुग्रीवे चाङ्गदे राजंस्ताम् मद्दोषकृतदोषाम् ताम् यथा ताराम् तपस्विनी सुग्रीवो नावमन्येत तथावस्थातुमर्हसि त्वया ह्यनुगृहीतेन शक्यम् राज्यमुपासितुम् त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना शक्यम् दिवम् चार्जयितुम् वसुधाम् चापि शासितुम् त्वत्तोऽहंवधमाकाङ्क्षम् वार्यमाणोऽपि तारया सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः इत्युक्त्वा वा नरो रामम् विररामहरीश्वरः सतमाश्वासयद्रामो बालिनम् व्यक्तदर्शनम् साधुसम्मतया वाचा धर्मतत्त्वार्थयुक्तया न सन्तापस्त्वया कार्य एतदर्थम् प्लवङ्गमा न वयम् भवता चिन्त्या नाप्यात्मा वयम् भवद्विशेषेण धर्मतः कृतनिश्चयाः दण्ड्ये यः पातयेद्दण्डम् दण्ड्यो यश्चापि दण्ड्यते कार्यकारणसिद्धार्थाबुभू तौ नावसीदतः तद्भवान् दण्डसंयोगादस्माद्विगतकल्मषः गतः स्वाम् प्रकृतिम् धर्म्याम् दण्डदिष्टेन वर्त्मना त्यजशोकम् च मोहम् च त्वया विधानम् हर्यग्र्य न शक्यमतिवर्तितुम् यथा त्वय्यम् गदो नित्यम् वर्तते वा नरेश्वर तथा वर्तेत सुग्रीवे मयि चापि न संशयः स तस्य वाक्यम् मधुरम् महात्मनः समाहितम् निजगादवानरः शराभितप्तेन विचेतसा मया प्रभाषितस्त्वम् यदजानता विभो इदम् महेन्द्रोपम भीम विक्रम प्रसादितस्त्वम् क्षम मे आदिकाव्ये किष्किन्धा काण्डे